एतदर्हा वयं नूनं वसामो दुर्बलस्यये ये विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः गुणैरेते वत्स्यन्ति कामगाः पक्षिणो यथा राजानं प्रथमं विन्देत् ततो भार्यां ततो धनं त्रयस्य सञ्चयेनास्य ज्ञातीन् पुत्रांश्च तारयेत् विपरीतं मया चेदं त्रयं सर्वमुपार्जितं तदिमापदं प्राप्य भृशं तप्यामहे वयम् सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया नचमे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन गतिञ्चैव न पश्यामि तस्मान् मोक्षाय रक्षसः सोऽहं दुःखार्णवेमग्नो महत्यसुकरे भृशं सहैवैतैर्गमिष्यामि बान्धवैरद्यराक्षसं ततो नः क्षुद्र सर्वाने सर्वानेवोपभोक्ष्यति इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि कुन्तीप्रश्ने एकोनषष्ट्यधिकशततमोऽध्यायः